शुक्रतुण्डमहाकायसूर्यकोटिसमप्रभा निर्विघ्नम् कुरु मे देव सर्वकार्येषु सर्वदा गणनाथसरस्वतिरविशुक्रबृहस्पति पञ्चैतानि स्मरे नित्यम् वेदवाणी प्रवर्तते गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरः साक्षात्परम् ब्रह्म तस्मै श्रीगुरवे नमः गुरवे, गुरवे सर्वलोकानाम् भिनजे भवलोगिनाम् विधये सर्वविद्यानाम् दक्षिणामूर्तये नमः श्रुतिस्मृतिनदीपूर्णम् नम शास्त्रकल्लोलसङ्कुलम् विष्णुभक्तिमहाफेनम् वन्देऽहम् सौनकार्णवम् श्रियः कान्ताय कल्याण निधये निधयेना श्रीरयङ्कलनिवासाय श्रीनिवासाय मङ्गलम् कृपा समुद्रम् सुमुखम् तृणेत्रम् जटाधरम् पार्वती वामभागम् सदाशिवम् रुद्रमनन्तरूपम् चिदम्बरेश्वरम् हृदि भावयामि ओ शन्नो देवेरभिष्टयामो भवन्तु पीतये शय्यारभिस्रावन्तु महा ये त्रे सप्ताह्यन्ति विश्वारूपाणि बिभ्रातः वाचस्प दर्बला तन्वो अद्यत धातुमे पुनरेः वाचस्पदे देवेन मनसा सह वशास्पदे निरामयमय्येवास्तु मयि श्रुतम् इहेवाभिवृता नोभे आत्मेयिभज्यया वाचस्पदर्नियच्छतु मय्ये वास्तु मयि श्रुतम् उपाभूतो वाचस्पतिरुपास्मान्वाचस्पतिह्वयताम् सम् श्रुतेन गमे महिमा श्रुतेन विराधिषे विद्माशरस्य पितरम् पर्जन्यम् भूरे धायसम् विद्माश्वस्य मातरं पृथिवेम् भूरे मर्पसम् जराकेपलेनो नमास्मानम् तन्मम् कृधे वेणुर्वलीयो राजेरभ्येषाम् सकृधे वृक्षै यद्गावः परिषस्वजानानुस्फुरम् शरमर्चम् ध्रुभम् शरोमस्मद्या वयदिद्युमिन्द्रा यथाद्याम् च पृथिवीञ्च न्तस्तिष्ठदिजानम् केवलोगम् चाश्रावन्तान्तस्तिष्ठतुम् च यत् विद्माशरस्य पितरम् पर्जन्यम् शतमृष्ट्यम् तेनादेतन्भे शङ्कारम् पृथिव्यान्ते निषेजानम् वेष्टे अस्तु बालिचि विद्माशरस्य पितरम् मित्रम् शातवृष्ण्यम् तेनाहदेतन्वेशङ्कारम् पृथिव्याम् देः ते निषेचनम् महिष्ठे अस्तु भालिति विद्माशरस्य पितरम् मलूनम् शातवृष्ण्यम् तेनाहदेतन्वे शङ्कारम् पृथिव्याम् जेः निषेचनम् बहिष्टे अस्तु बालिति विद्माशरस्य पितरम् चन्द्रम् शतवृष्ट्यम् तेनादे तन्वे शङ्कारम् पृथिव्याम् निषेचनम् बहिष्टे अस्तु बालिति विद्माशरस्य पितरम् सूर्यम् शतवृष्ट्यम् ते तन्वे एषङ्गारम् पृथिव्याम् ते निषेचनम् बहिष्टे अस्तु बालिते निरान्त्रेषो गवेण्या यद्वस्तावधिकम् शोकम् देवाते मोत्रम् उच्यताम् बहिर्बालिते सर्वकम् प्रतेभिनज्ञे मे हम् मम् मेषम् जायैव ते मूत्रम् मुच्यताम् बहिर्बालिते सर्वकम् विशेषम् देवस्ति विलम्बमुद्रस्य दधैरेव ते मूत्रम् मुच्यताम् बहिर्बालिते सर्वकम् यथेशुकापरापा दक्षाधिधन्वानः ते मोत्रम् उच्यताम् बहिर्पाल्यते सर्वकम् अम्बयोम् जाभर्जामयो अध्वरेयता कुञ्चतेर्मधो नापयाः अमोर्या उपासोर्ययाभर्वासोर्यः सः ता नो हिन्वन्तद्भरम् अपो देवेरुपः पये यत्र गावः पिबन्दिनः सिन्धुभ्यः कर्त्वम् हविः अप्स्वा आन्तरमृतमप्सुभेषजम् अपामृतप्रशस्तिभिदश्वा भवथ वाजिनो गावो भवथ वाजिनीः आपोहिष्ठाम योभुवस्तान महेरणायचे नो वः शिवदमोरसस्तस्य भाजय देहनाः विषयैरेव मातराः तस्मारङ्गमामबोयस्य क्षया यदिन्नाथा आपो जन याथा जनः ईशानावर्याणाम् क्षयन्तेश्चर्षणीनाम् अपोयाजामि भेषजम् शन्नो देवेदभिष्टा भवन्तु पीतये शय्यादभिस्रवन्तु नः अप अप्सु मे सोमोऽ अब्रवेदम् दर्विश्वामि भेषजा अग्निम् च विश्वसम्भुवम् आपः प्रणेश भेषजम् जोर्कशौर्यम् दृशे षण्णापोधन्वन्या आश्रमोऽसन्त्वनोऽप्याः षण्णः खनित्रिमापश्यमुयाः कुम्भाभृताः शिवानः सन्तुवाशेगेः स्तुवानमग्नावाहया तु धानङ्गि मेदिनम् ब्रह्देव वन्दितोऽहन्दादस्य बभोवि सा आज्यस्य परमेष्ठिम् जातवेदस्तनो वशिन् अग्नेः कौलस्य प्राशानया तुनान् विलापया विलापन्तु या तुनाः एकी मेदिनाः अचेतमज्ञेनो हविरिन्द्रश्च प्रदेहवियतम् अज्ञः पोर्भारभताम् प्रेन्द्रो नुदतु बाहुमा प्रवेतु सर्वो यातुमानयमस्मीत्येत्या तस्यामजै वीर्यम् जातवेदः प्रणोः ब्रूहि यातुधानाम् प्रचक्षः त्वया सर्वे परे दत्ताः पुरस्ताब्धायम् तु प्रब्रुवानावपेदम् आरभस्व जातवेदोऽस्माकार्थाय जग्निषे धूतो नोऽ भूत्वा या तुनान् विलापया स्वमग्नेया दुधानानुपाबद्धा विहावाह अथ एषामिन्द्रो वज्रेणापे शीर्षाणे वृक्षतो इदम् हविर्यादुधानान्न दीर्पेना विवाहत् य इदाम् स्त्रेषु मानकार्यरस्तोवताञ्जनाः अयम् स्तोवानागामधिमाम् स्म प्रतिहर्यत बृहस्पते वशे लब्ध्वाग्ने सोमा विविध्यतम् यातु धानस्य सोमपजः प्रजान्नयस्व च निःस्तोमानस्य ृधानो जह्येषां श्रमग्ने अस्मिन्वसुवसावो धारयन्दिन्द्रः पूषावरुणो मित्रो अग्निः इममादित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु अस्य देवाप्रदिषि सूर्यो अग्निरुतवाहिरन्यम् सपत्ना अस्मदधारे भवन्तोत्तमम् नागामधीरोहयेमम् येनेन्द्राय समभारः पयाम् यत्तमेन ब्रह्म नाजातवेदः येन त्वमग्नय वर्धयेमम् स जातानाम् च्चो ददेहम् राजस्पोषमुदचित्तान्यज्ञे सपत्ना अस्मदधारे भवन्तोत्तमम् नागामधेरोहयेमम् अयम् देवानामसोरो विराज दिवशाहि सत्यावरुणस्य राज्ञाः ततस्परिब्रह्मणाशाच दानमुद्रस्य मन्योरुधिमन्नायामि नमस्ये राजन्वरुणास्तु मन्य विश्वम् जग्रजिकेशे द्रुब्धम् सहस्रामन्यान्प्रसोवाभिकम् सतञ्जेवातिशरदस्तवायम् यतो मत्थापया वृजेनम् बहो राज्ञस्त्वा सत्यधार्मणा मुञ्चामेव वरुणादहम् मुञ्चामि त्वा वैश्वानलादर्णवान्महतस्पली स जातानुग्रेहावादब्रह्म चापाजिगेहिनः पशत्ते पोषन्नस्मिन् सोता पर्यमाहोता कृणोतु मेधाः शिस्रातानार्हृतप्रजाता विपर्वाणि जिहताम् सोतबाहो चतस्रो दिवप्रतिशश्चतस्रो भूम्याः उता देवा गर्भम् समैरयन्ताम् योऽर्णुवन्तु सूतवे शोषाम् यो अर्णो दु यो लिम्हापयामसि शया शोषणे विष्कले सृजा नेव मांसेन पीवासि नेवा अवयेतृष्णेशैव लंशुने जरायिबत्तवेव जरायोपद्यता पितेभिनग्ने मेहल्यो निम्विकविनीके विमातरम् च पुत्रम् च विकोमारम् जलायुना वा जरायोपद्यता यथा वातो यथामनो यथापथम् च पक्षिणाः एवार्थम् दशमार्स्य साकम् जलायुना पतापजलायूपद्यता जलायुजः प्रथमवश्रियो वृषा वादभ्रजा स नयन्नेतिमृष्ट्या स ना मृडादिकन्दालुजगोरुजन्यकामोदस्त्रेधा विचक्रामे अङ्गे अङ्गे शोचिषा शिश्रियाणन्न मस्यन्द स्वा हमिषा विधेमा अङ्गान्सामङ्गान्हमिषा विधेमयो अग्रभेत्पर्वास्याग्रभेदा मुञ्चसेर्षक्त्या पुदकाशये नम्बरुस्परुराविवेशा यो अस्या यो अभ्रजावाद वनस्पते सतताम् पर्वतांश्च शम्ये परस्वै गात्राय समस्त्वपाराय मे शम्ये चतुर्भ्योऽङ्गेभ्यः शमस्तु तन्वे ए, ए, नमस्ते अस्तु विद्युते नमस्ते स्तनयित्रवे नमस्ते अस्मश्माने येनादूढासे अस्यासि नमस्ते प्रवदोनपार्जतस्तपः समूहासि मृणयानस्तनोभ्योमयस्तोकेभ्यः स्कृधे प्रवदोनपान्नमाये वास्तुतभ्यम् नमस्ते हेतयेतपोजे च कण्णः विद्मते धाम परमम् गुहायत्स मुद्रे अन्तर्निहेतासिनाभिः यान्त्वा देवासृजन्तविश्वयिषुम् गृह्वानासनायधृष्णम् सा नो मृणविदधे गृह्णाना तस्ये देवि देवी भरमस्या वच्च आदिष्यधे वृक्षादेवस्रगम् महाबुद्धयमपर्वतोज्योऽपिदृश्वास्ताम् एषा चे राजन् कन्यावधोर्निधो यदा यम सा मातुर्बध्यताम् गृहेऽथो परे दद्महे ज्यो कृतश्वा जाताशीर्ष्णः समोऽप्यात् अशेदस्य ते ब्रह्मण कश्यपस्य गयस्य च अन्तःकोशमेव जामयोऽपे न भगम् सं संसावन्तो हिमै यज्ञम् प्रतिभो मे दुषन्ताम् सं श्राव्ये न हविषा जुहोमि इहैवहवमायातम इहम् श्रावणा पुरेमम् वर्धयदा गिरः इहेतु सर्व यः पशुरस्मिन्निष्ठतुजादये न तीनाम् सर्वे संस्रावैर्धनम् संस्रावयामसि हे सर्पिषः संसर्वन्दिक्षीरस्य चोदरकस्य च हे भे सर्वैः संस्रावैर्धनम् संस्रावयामसि ये मा वास्यात्रिमुदस्थुर्वाजमत्रिणाः अग्निश्च यो या दुहासो अस्मभ्यमधिब्रवत् श्रीसा याध्याहवरो नः श्रीसा याग्निरुपावति श्रीशमयेन्द्रः प्रायच्छत्तगङ्गया तु जादानम् इदम् विष्कन्धम् सहत यदेनोगाम् हंसि यद्यश्व यदे कोरोषम् तन्ताशेषण विध्यामो यथा नोऽसो अवीरः अमोर्यायन्ते योषितो हिरालो हेदमाससः अभ्रातारैव राम यस्तिष्ठन्तु हतमर्चसः तिष्ठावने तिष्ठापदमुदत्कम् तिष्ठ मध्यमे कनेष्ठिका चतिष्ठा चतुष्ठादिधमनर्महे शतस्य धमनीनाम् सहस्रस्य हिराणा अष्ठलिन्मध्यमा इमाः सा दावते परे वशिका तावत् धनोर्ब्रहत्यक्रमेत् तिष्ठते नयतासुखम् निर्लक्ष्म्यम् बलाम्या निरलातिम् सुबामसि अथ या भद्राथानेन प्रजायालातिम् नयामसि निरलानिम् स विरासा नित्रो नियमा निरस्मभ्यमनोमतेरराप्रेमाम् देवासा विश्वसौभागाय यत्त आत्मने तन्वाङ्घोरमस्ति यद्वाकेशेषु प्रभेचक्ष ने वा सर्वम् तद्वाचाबाहन्वा वयम् देव स्वासवितासोदयतो विश्यपदेम् मृषरथेम् गोषेधाम् वेधमामुत विलेढ्यम् लगाम्या आन्था अस्मन्नाशयामसे मा नोऽविदन्विव्याधिनोमाभिव्याधिनो विदन् आदाच्छव्या अस्मद्भिषो जेरिन्द्रपादया विश्वम् यो अस्मक्षरवत्पदम् द्वये अस्ताय चास्याः दैवेऽङ्मनश्ये च वो ममामित्रान्विध्यत यो नस्वो यो अरणस्य जातमुदनिष्ठ्यो यो अस्माभिदासते रुद्रश्च द्रव्ययैतान्ममामित्रान्विध्यतो यः स पत्नो यो सपत्नो यश्च द्विषंसपादिनः देवास्तम् सङ्गे धोर्वन्द्वब्रह्म पर्म ममान्तरम् अदारसद्भवतु देव सोमास्मिन्निज्ञे मारुतो मृदानः मानोऽवितदभिभामोऽशष्टिर्मानोऽविरदृशिनाद्देश्याय से नधो घायो नामुरीरदे मित्रावरुणा वस्मद्यावयतम् वरे इतश्च यतमुतश्च यद्वधम् वरुणया वया विमहच्छर्मा यच्छपदे यो यावयावधम् शासयिच्छा न यस्य हन्यते सखान कीयते कदाचन स्वस्तिदा विषामृतृप्रहावे मृधो वशी वृषेन्द्रः पुलये तु न सोमपाभयम् करः विना विरक्षो विमृधो जहि विवृत्रस्य ह नोरुज विमन्यमिन्द्रवृत्रहन्नमित्रस्याभिदासातः अपेन्द्रद्विषतो मनोपादिद्यासदो वधम् विमहच्छर्मा यच्छव देयो ोरोहे तस्य वर्णेन तेनत्वापदे दध्मसे परयित्वा रोहे तैर्वर्णेर्दीर्घायुत्वाय दध्मसे यथा यमानपा अस तथो अहनितोऽभुवत् ध्यारोहिणेर्देवत्या आगावो यावुत रोहिणी रोपम् रूपम् वयो वयस्ताभिष्टा परे दध्मसि सुकेषु ते हरिमाणम् रोपनाकासु दध्मसे असो हारिद्रवेषु ते हरिमानम् रामे कृष्णे असिग्नि च इदम् राजनिलजयखिलाषम् वलितम् किलासम् न परिरम् जनितो नाशयापृषत् आत्त्वा स्वपेशताम् वर्णः परा शुक्लानि वादय असेतम् च प्रलया नमास्थानामसेतम् नम असिक्तस्योच निलितो नाशयापृषत् दोष्याकृतस्य ब्रह्मणा लक्ष्मश्वेतमानेन शम् सुपर्णो जातः प्रथमस्तस्य त्वम् पित्तमासिथ तदाऽऽसुरे युधादिरूपम् चक्रे वनस्पतेन आसुरे चक्रे प्रथमेऽदङ्गेलासभेटलमिदङ्गेलासनाशानम् हलेन शत्खिलासं सरोपामकरत्वचम् सरोपानाम च माता सरोपो नाम च पिता सरोपकरत्वमाशधसा सरोपमिदम् कृधे श्यामा सारोपम् करणे पृथिव्याभ्युद्भृता इदमोऽशप्रसाधय पुनारूपाणि कल्पय यदग्निरापो अदाहत्रविश्य यत्रा कृमाधतो न माध्ये तत्र ताभुत्परामम् जनित्रम् समर्सम् विद्वान्वरे वृन्धितक्मन् यद्यर्थव्यजिवाशेषोचिष्याकल्लेशि यजे वा तनित्रम् प्रोढुर्नामाजिहरितस्य देवसनस्सम् विद्वान्वरे यदि शोको यदेवाभिशोको यदेवाराज्ञो वरो नस्यासे पुत्रः क्रोडर्नामाचिहरितस्य देवसनः संविद्वान्वरे वृन्थ्यक्मन् नमः शीताय धक्मणे नमो रुराय शोचिषे कृणोमि योऽद्युलोभयद्युरभ्ये च तृतीयराय नमोऽस्तु तक्मने नमो आरे रे एषा वस्मदस्तु हेदर्देवासोऽसत् आरे अश्मायमस्या षड्गा सा वस्मभ्यामस्तु राजिः सुखेन्द्रोभगः सविदाचित्रनाथाः योऽयन्न प्रवतो न पान्मलोचः सूर्यत्वदसः शर्म यच्छाधसप्रधाः सुषोदत मृणत मृडया नस्तनोभ्यो मयस्तोकेभ्यः स्कृधे अमोः पारे पृदार्कस्तु शब्दानिर्जालायवः पासाञ्जलायोभिर्वयमख्यावपि व्ययामस्य भायोः पारिपन्थिनः पिशोच्चेदुगृन्तापिनाकमिव बिभ्रति विश्वः पुनर्भुवामनो स वृद्धा भायवाः बहवः समाचकर्णार्भकाभिताधृशोः फेनोरद्गायिवाभितो स वृद्धा भायवाः प्रेतम् पादौ उपत्रागाद्देवो अग्ने रक्षो हा मे एव चात नः प्रहन्नपद्वयाविनोः यातुधानान् किमे दिनाः प्रदेदह यातु धानान् प्रदेदेव किमे जिनाः प्रदेजे कृष्णवर्तने सन्देह यातु धान्याः राशशापशपनेन याघम् होरामादधे रसस्य हरणाय जातमा रेभेदोकमत्तु सा पुत्रमत्तु यातु धानेष्वसारमुदनप्यम् अथामिथो विकेश्यो धान्यो विदृश्यन्दामराय्याः अभिवर्तेन मणिरायेनेन्द्र ृधे तेनास्मान् ब्रह्मणस्पतेभिराष्ट्राय वर्धय अभिवृत्य सपर्नानभियानो अलादयः अभिप्रेतन्यन्तम् दिष्टाभियोनो दुरश्यति अभित्वा देवः सा सोमो अविवृधत् अभित्वा विश्वा भूतान्यभिभक्तो यथासासि अभिभक्तोऽभिभवः स वत्क्षय नो मणिः राष्ट्राय मह्यम् बध्यताम् सपत्नेऽ्यः परा भुवे कुत असौ सूर्यो अगादृदिजम् मामगम् वचाः यथाहं शत्रुः शाधिराः स्वविशाः यथाहमेषाम् वीराणाम् विराजाने जनस्य च विश्वे देवावस गोरक्षादित्या दे जागृतयोऽयमस्मिन् मेमम् धनाभिरुतमान्यनाभिर्मेम्राभत्पौरोषेयो मधोजः देवाः पितरो ये च पुत्रा स चेतसोमे शृणुतेदमुक्तम् सर्वेभ्यो वह्परिगतान्येतम् स्वस्त्येतम् जलसेवहास एवादिविष्ठये प्रेथिव्याम् ये अन्तरिक्षवोषधेषु पशुष्व स्वान्तः ते कृणत जलसमायो स्मै शतमन्यान्वलेवणक्तुमृत्योन् येषाम् प्रयाजाहुतपालु याजाहुतभागाहुतादश्च देवाः येषाम् वक्तञ्च प्रदिशो विभक्तास्तान्व अस्मै तत्र तद कृणोमि आशानामाजापालेभ्यश्चतुर्भ्यो अमृतेभ्यः विरम्भोदस्याध्यक्षेभ्यो विधेम विषा वयम् य आशा नमाचापालाश्चत्वारस्थनदेवाः तेनो निर्वत्या पाशेभ्यो मुन्दताह्सोऽहसः अश्राहमस्वाहविषायजाम्यश्राणस्वाघृतेन जुहोमि यः जानामाजापार्वस्तुलीयो देवः स नः सुभूतमेहवक्षत् स्वस्ति मात्रभुतपित्रेणोऽस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः विश्वम् सुभूतम् सुविदत्रम् नोऽस्त्वद्योगेव दृशेऽवसूर्यम् विदम् न तत् लेशं व्यान्नो दिवियेन प्राणन्दे विरुधाः अन्तरिक्षा सां स्थामः शान्त सदामिव आस्थानामस्य भूतस्य विरुद्धेधो नमः यद्रोदशीलजमाने भूमिश्च निरदक्षतम् आर्द्रम् तदद्य सर्वदा समुद्रस्येव श्रोत्या विश्वमन्यामभेवालतरन्यस्यामधिश्रुतम् विवे च विश्ववेदवे पृथिव्ये चाकलम् नमाहरण्यवर्णाश्रुजायः पावगायासुजातस्याभितायाश्वग्निः या अग्निर्गर्भम् दधिरे सुवर्णास्ता न पश्याम् स्यो न भवन्तु यासाम् राजा वरुणो यादिमध्ये सत्यापश्यञ्जनाना याग्निम् गर्भम् गुरे सुवर्णास्ताना पश्यं शो न भवन्तो या साम् देवादिविकन्वन्दे भक्षै या बहुधा भवन्ति अग्निम् गर्भम् दधरे सुवर्णास्तानापश्यम् स्यो नाभावन्तु श्रेनामा चक्षुषा पश्यतापश्रुणया पश्यता तन्वोपस्पृशतत्त्वचम् कृतश्रुतश्रु च यो याः पावकास्तानापश्यम् स्योनाभावन्तु इयम् हेरुन्मधो जातामधो ना त्वाघनामसि मधो रथिप्रजादासिसा नो मधो मधस्कृधे जिह्वायाग्रे मधो मे जिह्वामूले मधो नाकम् ममेदहर्कतामसो ममा चित्तमुपायासि मधो मन्मे निक्रमाणम् मधो मन्मे पलायनम् वाचा वदामि मधो मद्भूयासम् सं मधो सन्दृशः मधोरश्मिमधोतरो मधुघान्मधूमत्तरः मामित्किलत्वम्बना शाखाम् मधूमतीमिव परित्वा परितत्मुनेक्षुणा गामविद्विषे यथा माम् कामिन्यसो यथामुन्नापगासाः न्दाक्षाय नारन्यम् शतालेकाय सुमनस्य मानाः तत्ते वधान्याय शैवच्च शैवनाय देर्घ्यायुत्वाय शतशारदाय वेदं रक्षान्त्रिणपेषा च सा हन्ते देवानामोजः प्रथमजम् भर्ति दाक्षायनम् हिरण्यम् सुजीवेषु गृहदे दीर्घमायोः अपान्ते जोज्योतिरोजबलम् जो च जो वनस्पतेनामुत वीर्याणि इन्द्रायिवेन्द्रियाण्यधि धारयामो अस्मिन्नक्षमाना विफलद्भिरण्यम् सा मृतभिक्ष्वा वयम् संवत्सरस्य पयासापि पर्मि इन्द्राग्नि विश्वे देवास्तेनो मन्यन्तामहृणीयमाना